गरुडपुराणम् आचारकाण्डम् अध्यायम् हण्ड्रेड् अण्ड् इलेवेन् सूत उवाच पार्थिवस्यदुवक्ष्यामि भृत्यानाञ्च लक्षणम् सर्वाणि हिमहीपालः सम्यग् नित्यम् परीक्षयेत् सत्यधर्म राज्यम पालते विचिन्वीद, सत्य धर्मपरायण निर्जिपरसैनिक्षिम धर्मेण पालं विचिवीद मूलच्चेद्ये नयक दोधार क्षीरभुञ्जाना विकृतं तन्न भुञ्जते परराष्ट्रम् महीपालैर्भोक्तव्यं न च दूषयेत् नोद्धश्चिन्त्यात्तु यो धेन्वाः क्षारार्थो लभदे पयः एवं राष्ट्रं प्रयोगेण पीड्यमानं न वर्धते तस्मात् सर्वप्रयत्नेन पृथिवीमनुपालयेन् पालकस्य भवेद्भूमिकीर्तिरायुर्यशो बलम् आभ्यार्च्य विष्णुम् धर्मात्मा गोब्राह्मणहितेरतः प्रजाः पालयितुम् शक्रपार्थिवो विजितेन्द्रियः ऐश्वर्यमध्रुवम् प्राप्य राजा धर्मे मदिञ्चरेद क्षणेन विभवो नश्येन्नात्मा यत्तं धनातिकं। सत्यं मनो रमाकामा सत्यं रम्या विभूतयः किन्तु वैवनितापाङ्गभङ्गिलोलं हि जीवितं व्याक्रीव तिष्ठदिजरा रोगाश्च शत्रवयिव प्रभवन्ति गात्रे आयुः परिस्रवदिभिन्नखडादिवाम्भो लोको न चात्महितमाचरतीह कश्चिद निःशङ्गम् किम् मनुष्या कुरुतपरहितम् युक्तमग्रेहितम् यन्मोदध्वम् कामिनीभिर्मदन शरहदा मन्दमन्दादिदृष्ट्या मा पापं संकुरुध्वं द्विजहरिपरमाः सम्भजध्वं सदैव आयुर्निःशेषमेदिष्कलति जलखडीभूतमृत्युच्छलेन माद्रुवत् माधृवत्परदारेषु परद्रव्येषु लोष्टवद आत्मवत् आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः एतदर्थं हि विप्रेन्द्राराज्यमिच्छन्ति भूभृतः यतेषां सर्वकार्येषु वचो न प्रतिभन्यते ये कुर्वन्ति राजानो धनसञ्चयम् रक्षयित्वा तु चात्मानं यद्धनं तद्विजातये ओङ्कारशब्दो विप्राणां येन राष्ट्रम् प्रवर्धते स राजा वर्धते योगाद्व्याधिभिश्च न बध्यते असमर्थाश्च कुर्वन्ति मुनयोद्रव्यसञ्चयम् किं पुनस्तु मही पालपुत्रवत्पालयन् प्रजाः यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः यस्यार्थाः स मुमाल्लाके मु, यस्यार यस्यार्थाः स मुमांलाके यस्यार्थाः स च पण्डितः त्यजन्तिमित्राणि पुत्राश्च दाराश्च सुहृज्जनाश्च ते चार्थवन्तम् पुनराश्रयन्ति ह्यर्थो हि लोके पुरुषस्य बन्धुः अन्धा राजा भवति यस्तु शास्त्रविवर्जितः अन्धः पश्यति चारेण शास्त्रहीनो न पश्यति यस्य पुत्राश्च भृत्याश्च मन्त्रिणश्च पुरोहिताः इन्द्रियाणि प्रसुप्तानि तस्य राज्यं चिरं न हि येनार्जितास्त्रयोऽप्योऽप्येते पुत्रा भृत्याश्च बान्धवाः जिता तेन समं भूपैश्चतुरब्धिर्वसुन्धरा लङ्घयेास्त्रयुक्तानि हेतुयुक्तानि यानि च स हि नश्यन्ति वैराजा इह लोगे परत्र च मनस्तापं न कुर्वीत आपदम् प्राप्य पार्थिवः समबुद्धिप्रसन्नात्मा प्रसन्नात्मा, प्रसन्नात्मा सुगदुःखे समो भवेद धीराकष्टमनुप्राप्य न भवन्ति विषादिनः प्रविश्य वदनं राहो किं दिग्धिक्शरीरसुखलालितमानवेषु मा के दये धनकृष्यं हि शरीरमेव सद्दारकाह्यधनपाण्डुसुधाश्रुदा हि दुःखं विहाय पुनरेव सुखं प्रपन्नाः गन्धर्वविद्या मालोक्यवाद्यं च गणिकागणान् धनुर्वेदार्थशास्त्राणि लोके रक्षे च भूपतिः कारणेन विना भृत्ये यस्तु कुप्यधिपार्थिवः स गृह्णादिविश्वोन्मादं कृष्णसर्पविसर्जितं चापलाद्वारयेद्दृष्टिं मिथ्यावाक्यञ्च वारयेद् मानवे श्रोत्रिये चैव भृत्यवर्गे सदैव हि लीलां करोति राजा भृत्य स्वजनगर्वितः शासने सर्वदा क्षिप्रम् रिपोभिः परिभूयते हुङ्कारे भ्रुकुडीम् नैव सदा कुर्वेदपार्थिवः विना दोषेण यो राजा धमणशास्ति च लीला लीलासुखानि भोग्यानि त्यजदिहमहीपतिः सुखप्रवृत्तै साध्यन्तै शत्रवो विग्रहे स्थितैः उद्योगसाखसं धैर्यं बुद्धिशक्ति पराक्रमः षड्विधो यस्य उत्साहस्तस्य देवोऽपि शङ्कते उद्योगेन कृते कार्ये सिद्धर्यस्य न विद्यते दैवं तस्य प्रमाणं हि कर्तव्यम् पौरुषं सदा इति श्रीगारुडे महापुराणे येका दशोत्तर एकादशोत्तरशततमोऽध्यायः अध्यायम् हण्ड्रेड् अण्ड् ट्वेल्व् श्रीगरुडमहापुराणम् हण्ड्रेड् अण्ड् ट्वेल्व् सूत उवाच भृत्या बहुविधा ज्ञेया उत्तमाधममध्यमाः नियोक्तव्या यथार्हे श्रु विधेश्वेव कर्मसु भृत्ये परीक्षणं वक्ष्ये यस्य यस्य हि यो गुणः तमिमं सम्प्रवक्ष्यामि ये यथा कथितं किल यथा चतुर्भिः कनकं परीक्ष्यते निकर्षणच्छेदनतापताडनैः तथा चतुर्भिर्भृतकं परीक्षयेद्वतेन शीलेन कलेन कर्मणा कुलशील गुणोपेदसत्यधर्मपरायणः रूपवान् सुप्रसन्नश्च कोशाध्यक्षो विधीयते मूल्यरूपपरीक्षाकृद् भवेद्रत्नपरीक्षकः बलाबलपरिज्ञादा सेनाध्यक्षो विधीयते इङ्गिताकारतत्त्वज्ञो बलवान् प्रियदर्शनः अप्रमादी प्रमाधी च प्रदिहारः स उच्यते मेधावी वाक्पडुप्राज्ञः सत्यवादीजितेन्द्रियः सर्वशास्त्रसमालोकी ह्येष साधुः बुद्धिमान् मदिमांश्चैव परचित्तोपलक्षकः क्रूरो यथोक्तवादी च एष दूतो विधीयते समस्तस्मृतिशास्त्रज्ञपण्डितो धजितेन्द्रियः शौर्यवीर्यगुणोपेदो धर्माध्यक्षो विधीयते पितृपैतामहो दक्षशास्त्रज्ञः सत्यवाचकः शुचिश्च कण्ठिनश्चैव पकारस्य उच्यते आयुर्वेदकृताभ्यासः सर्वेषां प्रियदर्शनः आयुशीलगुणो भेदो वैद्य एव विधीयते वेदवेदाङ्गतत्त्वज्ञो जपः मपरायणः आशीर्वादपरो नित्यमेष राजपुरोहितलेखकपाठकश्चैव गणकप्रतिरोधकः आलस्य युक्तश्चैद्राजा कर्म संवर्जयेत् सदा द्विजिह्वमुद्वेगकरं क्रूरमेकान्तदारुणं खलस्याहेश्च वदनमपकाराय केवलं दुर्जनपरिहर्तव्यो विद्ययालङ्कृतोऽपि सन् मणिनाभूषितसर्पः किमः सौन भयङ्करः अकारणविष्कृतकोपधारिणद्भयं कस्य न नामजायदे विषमहाखेर्विषमस्य दुर्वचः स दुःसहं सन्निपदेत् सदा मुखे तुल्यार्थम् तुल्यसामर्थ्यं मर्मज्ञम् व्यवसायिनम् अर्धराज्यहरं भृत्यं यो हन्यात्सनहन्यते शूरत्वयुक्त्वा मृदुमन्दवाक्या चितेन्द्रिया सत्यपराक्रमश्च प्रागेव पश्चाद्विपरीतरूपा एते तु भृत्यानहिता भवन्ति निरालस्या सुसन्तुष्टाप्रतिबोधकाः सु दुःखद सुखदुःख समाधिराभृत्या लोकेषु दुर्लभाः क्षान्तिस्तयविहीनश्च क्रूरबुद्धिश्च निन्दकः दाम्भिककपडि चैव षटश्च स्पृहयान्विदः अशक्तोभयभीतश्च राज्ञा त्यक्तव्यये वसः सुसन्धानानि चास्त्राणि शस्त्राणि विविधानि च दुर्गे प्रवेशितव्यानि ततः शत्रुं निपादयेद् षण्मासमधवर्षं वा सन्धिं कुर्यान्नराधिपः पश्यन् सञ्चितमात्मानं पुनः शत्रुं निपादयेद् मूर्खान् नियोजयेद्यस्तोत्रयोऽप्येदे महीपदे अयश चार्थनाशश्च नरके चैव पातनम् यत्किञ्चित् कुरुते कर्मशुभम् वा यदि वा शुभम् तेन राजा सूक्ष्मदो भृत्यकार्यदः तस्माद्भूमीश्वरप्राज्ञम् धर्मकामार्थसाधने नियोजयेद्धि सददं ग्रो ब्राह्मणहिताय च इति श्री गारुडे महापुराणे आचारकाण्डे बृहस्पत्युक्तनीदितारे द्वादशोत्तरकशतमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् तर्टीन् सूद उवाच गुणवन्तं नियुञ्जीद गुणहीनं विवर्जयेद पण्डितस्य गुणः सर्वे मूर्वे दोषाश्च केवलाः सद्भिरासीद सददं सद्भिः कुर्वेदसङ्गतिं सद्भिर्विवादं मैत्रीं च नास्सद्भिः किञ्चिदाचरेद पण्डितैश्च विर्नातैश्च धर्मशैसत्यवादिभिः तिष्ठे च न दुराज्ये कलैः सह सावशेषाणि कार्याणि कुवत्रार्थे युज्यते तस्मात् सर्वाणि कार्याणि सावशेषाणि कारयेद् मधुहेव दुहेत्सारं कुसुमञ्चनखादयेद् वत्सापेक्षी दुहेत् भूमिं गाञ्चैव पार्थिवः यथा क्रमेण पुष्पेभ्यश्चिनुदे मधुषत्पदः तथा वित्तमुपादाय राजा कुर्वीदसञ्चयम् वल्मीकं मधुजालञ्च शुक्लङ्क्षेदुचन्द्रमाः राजद्रव्यं च भक्ष्यै च राजद्रव्यञ्च भैक्षञ्च स्तोकं स्तोकम् प्रवर्धते अर्जितस्य क्षयं दृष्टा सम्प्रदत्तस्य सञ्चयम् अवन्ध्यं दिवसं कुर्यादानध्ययनकर्मसु वनेऽपि दोषा प्रभवन्ति रागिणा गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः अकुत्सिते कर्मणि यः निवृत्तरागस्य गृहम् तपोवनम् सत्येन रक्ष्ये सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते मृजया रक्ष्यते पात्रम् कुलं शलिन रक्ष्यते वरं विन्ध्याडव्याम् निवसनमभुक्तस्य मरणं वरम सर्पाकीर्णे शयनमथकूपे निपतनं वरं भ्रान्ता वर्ते सभयजलमध्ये प्रविशनं न दुः स्वीये पक्षे हि कथनं भाग्यक्षये सुीयन्ते नोपभोगेन सम्पदः पूर्वार्जिदेहि सुकृते नश्यन्ति कदाचन विप्राणाम्भूषणं विद्या पृथिव्या भूषणं नृपः नभसो भूषणं चन्द्रशीलं सर्वस्य भूषणम् ये ते ते चन्द्रतुल्याः क्षितिपदितनया भीमसेनार्जुनाद्याः शूरा सत्यप्रतिज्ञा दिनपरवपुष्यकेशवेनोपगूढाः ते वै दुष्टग्रहस्था कृपणवशगदा भैक्ष्यचर्यां प्रयाताः को वा कस्मिन् समर्थो भवति विधिवश्याद्भ्रामयेत्कर्मरेखा ब्रह्मायण कुलालवन्नियमिदो ब्रह्माण्डभाण्डो धरे विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कडे रुद्रो येन कपालपाणिपुटके भिक्षाडनं कारिदत्सूर्यो भ्राम्यदिनित्यमेव गगने तर मयि नमः कर्णने दादां बलिर्याचकको मुरारिर्दानं मही विप्रमुखस्य मध्ये दत्वाफलं बन्धनमेव लब्धं नमोऽस्तु दैव यथेष्टकारिणे मादा यदि भवेल्लक्ष्मीपिता साक्षाज्जनार्दनः कुबुद्धौ प्रतिपत्तिश्चै कुबुद्धौ प्रतिपत्तिश्चैस्तस्मिन् दण्डपदेत् सदा येन यद्वत्पुरा ये कर्म सुनिश्चितं तत्तदेवान्तराभुङ्गे स्वयमाहितमात्मना आत्मना विहितं दुःखमात्मना विहितं सुखं गर्भशय्यामुपादाय भुङ्देवै पौर्वदैहिकं न चान्तरिक्षे न समुद्रमध्ये न पर्वतानां विवरप्रवेशे न मातृमूर्ध्नि प्रधृतस्तथाङ्गेत्यक्तुं क्षमकर्म डुग्धस्त्रिकूढपरिखा समुद्रो रक्षांसि योधा परमाजवृत्तिः शास्त्रम् जवै शनः सा प्रदिष्ठम् सरावणकालवशाद्विनष्टः यस्मिन् वयसि यत्काले वापि तथा गच्छन्ति चान्तरिक्षे वा प्रविशन्ति महीतले धारयन्ति दिश सर्वा नादत्तमुपलभ्यते पुराधीता च या विद्या पुरा दत्तम् च जानकी जानक दुखभाजनम स्थूलजंगो यदाशब्दगामी चम्मण कनकेशी यदा सीधात्रे दुखभाजनम नी दुक्रिता वा पुत्रकमण स्वयं न गंद स्वयं बद्धास्वर्मण कर्मजन्यशरीरेषुरोगा शरीरमानसाः शरा इव पतन्तीह विमुक्ता दृढधन्विभिः अन्यथा शास्त्रगार्भिण्या धिया धीरोर्ध्वी हदे स्वामिवत् प्राकृतं कर्म, कर्म विदधाति तदन्यथा बालो युवाच वृद्धश्च यः शुभाशुभं तस्यां तस्यामवस्थायाम्भुङ्कृते जन्मनि जन्मनि अनीक्षमाणो विनरोऽभिदेशस्थोऽपि मानवः स्वकर्मपादवादेन नियते यत्र तद्फलं प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं वारयितुं अदो न शोचामि न विस्मयो मे ललाडलेखान पुनः प्रयादि गजस्कन्धे बिल आखुश्च धावधि नरशीघ्रतरा देवकर्मणः खः वर्धते कूपस्तमिव पानीयं बहूतकं यर्थाद्धर्मेण ते सत्या ये धर्मेण गदा श्रियः धर्मार्थो जहां लोके तत्स्मृत्वा ह्यर्थकारणात् अन्नार्थो यानि दुःखानि करोति कृपणो जनः तान्येव यदि धर्मार्थो न भूय क्लेशभाजनं सर्वेषामेव शौचानामन्नशौचं विशिष्यदे योन्नार्थैः शुचिः शौचान्नमृदा वारिणा शुचिः सत्यं शौचम् मनःशौचं शौचमिन्द्रियनिग्रहः सर्वभूते दया शौचं जलशौच चा पञ्चमं यस्य सत्यं च शौचम् च तस्य स्वर्गो न सत्यं हि वचनं यस्य सोऽश्वमेधाद्विशिष्यते मृत्तिकानां सहस्रेण चोदकानां सदेन हि न शुध्यति दुराचारो भावोपहतचेतनः यस्य हस्तौ च पादौ च मनश्चैव सुसंयत सुसंयतं विद्यातपश्च कीर्तिश्च सतीर्थफलमश्नु न प्रहृष्यति सम्मानैर्नावमानैः प्रगुप्यति न क्रुद्धपरुषम् ब्रूया देदत्साधोऽस्तु लक्षणम् दरिद्रस्य मनुष्यस्य प्राज्ञस्य मधुरस्य च काले श्रुत्वा हितं वाक्यं न कश्चित् न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण च अलभ्यं लभ्यते मर्त्याैस्तत्र का परिवेदना अयाचितो मया लब्धो पुनर्मत्प्रेषणाद्गदः यत्रागतस्तत्र गतस्तत्र का परिवेदना एकवृक्षे सदा रात्रौ नानापक्षिसमागमाः प्रभादन्यदिशो यान्दिका तत्र परिवेदना एकसार्धप्रयाताना सर्वेषां तत्र गामिनां यस्त्वेकस्त्वरितो यादि का तत्र परिवेदना अव्यक्तादीनि भूतानि व्यक्तमध्यानिशौनक अव्यक्त अव्यक्तनिधनान्येव का तत्र परिवेदना लो म्रियशरशर कुशाग्रेण तो संस्पृष प्राप्त कालो न जीवति लंतव्यागछति प्राप्तव्याना दुखा चुखा चापनोि पुर किं प्रलापै करिष्यति आचोद्यमानानि यथा पुष्पाणि च फलानि च स्वकालं नातिवर्धन्ते तथा कर्म पुराकृतं शीलं कुलं नैव न चैव विद्याज्ञानङ्गुणा नैव न बीजशुद्धिः भाग्यानि पूर्वं तपसार्जितानि काले फलन्त्यस्य यथैव वृक्षाः तत्र मृत्युर्यत्र हन्ता तत्र श्रीर्यत्र सम्पदः तत्र तत्र स्वयं यादिप्रेर्यमाणः स्वकर्मभिः भूतपूर्वम् कृतम् कर्म कर्दारमनुतिष्ठति यथा धेनुसहस्रे शुवत्सो विन्दन्ति मादरम् एवम् पूर्वकृतं कर्म कर्दारमनुतिष्ठति सुकृतं भुङ्क्ष्व चात्मीयम् मूठ किं परितप्यसे यथा पूर्वकृतं कर्म शुभं वा यदि वा शुभं तथा जन्मान्तरे तद्वै कर्तारमनुगच्छति नीचः सर्षपमात्राणि परचित्राणि आत्मनो बलिवमात्राणि पश्यन्नपि न रागद्वेषादियुक्तानाम् न सुखम् कुत्रचिद्विजा विचार्य खलु पश्यामि तत्सुखम् यत्र निर्वृतिः यत्र स्नेहो भयम् तत्र स्नेहो दुःखस्य भाजनम् स्नेहमूलानि दुःखानि तस्मित्यक्ते महत्सुखम् शरीरमेवायतनम् दुःखस्य च सुखस्य च जीवितञ्जशरीरञ्ज जात्यैव सहजायते सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् एतद्विद्या समासेनलक्षणम् सुखदुःखयोः सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् सुखं दुःखं मनुष्याणां चक्रवत् परिवर्धते यद्गतं तदधिक्रान्तं यदि स्यात् तच्च दूरतः वर्धमानेन वर्धेत न, न स शोकेन बाध्यते इति श्रीगारुडे महापुराणे आचारकाण्डे बृहद्रिनीधि सारे त्रयोदशोत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् एण्ड् फोर्टीन् सूत उवाच न कश्चित् कस्यचिन्मित्रम् न कश्चित् कस्यचिद्धृपुः कारणादेव जायन्ते मित्राणिरिपवस्तथा शोकत्राणम् भयत्राणम् प्रीतिविश्वासभाजनम् केन रत्नां मदम् सृष्टम् मित्रमित्यक्षरद्वयम् सकृदुच्छरिदम् येन हरित्यक्षरद्वयम् बद्धपरिकरस्तेन मोक्षाय गमनम् प्रदि न मादरि न दारेषु न सोदर्ये न चात्मजे विश्वासस्तादृशपुंसां यादृङ्मित्रे यदि चेच्छाश्वतीं प्रीतिम् स्त्रीन् दोषान् परिवर्जयेत् द्युदमर्थप्रयोगञ्च परोक्षे दारदर्शनं। मात्रा स्वस्त्रा दुहित्रा वानविविक्दासनो वसेद बलवानिन्द्रियग्रामो विद्वांसमपि समपिकर्षदि विपरीतरधिकामस्वायतेषु न विद्यते यथो वा योवधो दण्डस्तथैव ह्यनुवर्तते अपि कल्पानिलस्यैव तुरगस्य महो दधेः क्षणो नास्तिरहो नास्ति नास्ति प्रार्थयिदा जनः तेन शौनकनारीणां सतित्वमुपजायते ये कै सेवदे नित्यमन्यश्चेदभिरोचते पुरुषाणाम् अलाभेन नारी चैव पतिव्रत गुरुदे रहस्य मदनाधुरा सुतैस्तानि न चिन्त्यानि शीलविप्रतिपत्तिभिः परा पर हृदयकृत्यानुसरणं हास्यं नियतमपि शोकेन रचितं पणेन्यस्थक्कायो विडजनहृदैर्धारितबलो बहु कण्ठहृतिर्जगदि गणिक्रिया बहुमतः अग्निरापस्त्रियो मूर्ख सर्पराजकुलानि च नित्यम् परोपसेव्यानि सद्यप्राणहराणि षट किञ्चित्रं यदि वेदशास्त्रकुशलो विप्रो भवेत् पण्डितः किं चित्रं यदि दण्डनीदिकुशलो राजा भवेद् धार्मिकः किं चित्रम् यदि रूपयौवनवदी स्वाध्वी भवेत् स्वामिनी तच्चित्रम् यदि निर्धनोऽपि पुरुषपापम् न कुर्याक्रजिद नात्मच्छिद्रम् परे दद्याद्विद्याच्छिद्रम् परस्य च गोखेत् कूर्म इवाङ्कानि परभावम् च लक्षयेद पादालतलवा सिन्य उच्चप्राकारसंस्थिताः यदि नोचिगुरोद्भेदाल्लभ्यन्ते कैस्त्रियो न हि स धर्मा हि मर्मज्ञस्तीक्ष्णस्वजनकण्टकः न तदा बाधदेशत्रुकृतवैर्यो बहिः स्थितः स यो ह्यनुज्ञयेद्वैमिष्टेन बालं विनयेन शिष्ठम् अर्धेन नारीं तपसाहि देवान् सर्वांश्च लोकांश्च सुसङ्ग्रहेण चलेन मित्रं कलुषेण धर्मं परोपतापेन समृद्धिभावनम् सुखेन विद्यां पुरुषेण नारीं वाञ्छन्ति वैयेन च पण्डितास्ते फलार्थो भलिनं वृक्षं यच्छिद्ध्या दुर्मदिर्नरः निष्फलं तस्य वै कार्या महादोषमवाप्नुयाद सधनोहितपस्वी च दूरतो वै कृतश्रमः मद्यपस्त्री सती देवं न विश्वसेद विश्वस्ते मित्रस्यापि न विश्वसेद कदाचित् कुपितं मित्रम् सर्वं गुह्यं प्रकाशयेत् सर्वभूतेषु विश्वास सर्वभूतेषु सात्विकः स्वभावमात्मना गुहेदे दत् साधोर्हि लक्षणं यस्मिन् कस्मिन् कृते कार्ये कर्दारमनुवरुतते सर्वदा वर्धमानोऽपि धैर्यबुद्धिन्तु कारयेत् वृद्धा स्त्रियो नवं मध्यम् त्रिमूदकं मांसम् त्रिमूलकम् रात्रौ विद्वान् षट्परिवर्जयेत् विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् विषं कुशिक्षिता विद्या अजीर्णे भोजनं विषम् प्रियम् गानमकुण्डस्य नीचस्योच्चासनं प्रियम् प्रियं दानं दरिद्रस्य भूनश्च तरुणी प्रिया अत्यम्बुपानं कठिनाशनञ्च धादुक्षयो वेगविधारणञ्च दिवाशयो जागरणश्च रात्रौ षड्भिर्नराणां निवसन्तिरोगाः बालातपश्चाप्यधिमैथुनश्च श्मशानधूमकरतापनञ्च रजस्वलावत्क्रनिरीक्षणश्च सुदीर्घमायुर्ननुकर्षये च शुष्कम् मांसं स्त्रियो वृद्धा बालार्कस्तरुणम् दधि प्रभाते द्राक्षा बाला स्त्री उष्णोदकं तरुच्छाया सद्यप्राणहराणि षट कूपादकं वडच्छाया नारीणाञ्च पयोधरः शीतकाले भवेदुष्णमुष्णकाले च शीतलं त्रयो बलकरसद्यो बालाभ्यङ्गशुभोजनम् त्रयो बलहरा सद्यो ह्यध्वा वे मैथुनं ज्वरः शुष्कं मांसम् पयो नित्यम् भाज्यामित्रैः सहैवतु न भाक्तव्यं नृपै सार्धं वियोगं गुरुते क्षणाद कुचेलिनदन्तमलोपधारिणं बह्वाशिनं निष्ठुरवाक्यभाषिणम् सूर्योदये ह्यस्तमयेऽपिशायिनं विमुञ्चति श्रीरभिचक्रपाणिं नित्यं चेदस्रुणानां धरणिविलखनं पादयोश्चापमार्ष्टिः दन्दानामप्यशौचं मलिनवसनदारूक्षदा मूर्धजानां द्वे सद्ये चापि निद्रा विवसनशयनं साः ग्रास्सहासाधिरेकस्वाङ्गे पीठे जवाद्यं निधनमुपनयेत् केशवस्यापि लक्ष्मीं शिरः सुधौदं चरणौ सुमार्जितौ वराङ्गनासेवनमल्पभोजनम् अनग्नशायित्वमपर्वमैथुनं चिरप्रणष्ठां श्रियमानयन्ति शत यस्य कस्य तु पुष्पस्य पाणाडरस्य विशेषतः शिरसाधार्यमाणस्य ह्यलक्ष्मी प्रतिहन्यते दीपस्य पश्चिमाच्छाया छायाशय्यासनस्य च रचकस्य तु यत्तीर्थलक्ष्मीस्तत्र तिष्ठति बालातपप्रयदधूमस्त्रीवृद्धा तरुणं दधि आयुष्कामो न सेवेद तधा सम्मार्जनीरजः गजाश्वरध्यानानां गजाश्वरधान्यानां गवाञ्च रजशुभम् अशुभं च विजानीयात्करोष्ट्रजाविकेषु च गवाम् रजो धान्यरजपुत्रस्याङ्गभवम् रजः यद्रजो महाशस्तम् महापादकनाशनम् अजारज करजो यत्तु सम्मार्जनीरजः यद्राजो चूर्पवादो नखाग्राम्बु स्नानवस्त्रमृजोदकम् केशाम्बु मार्जनी रेणोर्हन्धिपुण्यम् पुरा कृदम् विप्रयोर्विप्रवह्न्योश्च दम्पत्यो स्वामिनोस्तथा अन्तरेण न गन्तव्यम् हयस्य वृषभस्य च जा। स्त्रीषु राजाग्निसर्पेषु स्वाध्याये शत्रुसेवने भोगास्वादेषु विश्वासम् खप्राज्ञः न विश्वसेदविश्वस्तं विश्वस्तं विश्वस्तं नादि विश्वसेद विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति वैरिणा सखसन्धाय विश्वस्तो यदि तिष्ठति स हि पतिथप्रतिबुध्यदे नात्यन्तं मृदुना भाव्यं नात्यन्तं क्रूरकर्मणा मृदुनैव म्रुदु मृदुं कन्दिदारुणेनैव दार्जुनम् नात्यन्तं सरलैर्भाव्यं नात्यन्तं मृदुना तथा सरलास्तत्र भिद्यन्ते कुब्जास्तिष्ठन्ति पादभाः न मन्ति फलिनो वृक्षा न मन्दि गुणिनो जनाः शुष्कवृक्षाश्च मूर्खाश्च भिद्यन्ते न मन्ति च अप्रार्थितानि यान्ति यान्ति मार्जार इव लुम्बे द तथा प्रार्थयितारनः पूर्वम् सदैव बहुसम्पदः विपरीतमनार्ये च यथेचति तथा चर षट्कर्णो भिद्यते मन्त्रश्च तु कर्णश्च धार्यते द्विकर्णस्य तु मन्त्रस्य तया गवा किं क्रियते यान दोग्ध्री न गर्भिणी कोद्धपुत्रेण जातेन यो न धार्मिकः ये सुपुत्रेण विद्यायुक्तेन धीमता कुलं पुरुषसिंहेन चन्द्रेण गगनं यथा ये केनापि सुवृक्षेण पुष्पितेन वनं सुवासितं सर्वं सुपुत्रेण कुलं यथा एको हि गुणवान् पुत्रो निर्गुणेन शदेन किम् चन्द्रो सन्दितमांस्येको नचज्यो च ज्योतिस्सहस्रकम् लालयेत् पञ्चवर्षाणि दशवर्षाणि ताडयेद् प्राप्ते दुषोडशे वर्षे पुत्रम् मित्रवदाचरेद जायमानो हरेर्धारान् वर्धमानो हरेर्धनम् म्रियमाणो हरे प्राणान्नास्ति पुत्रसमो रिपुः केचिन्मृगमुखा व्याघ्रा के तत्स्वरूप पहि ज्ञाने पदे पदे ये कः क्षमा वदाम् दोषो द्वितीयो नोपपद्यते ये देवानुमन्येद भोगाहिक्षणभङ्गिनः स्निग्धेषु च विदग्धस्य मदयो वैह्यनाकुलाः ज्येष्ठपितृसमोभ्रातामृतेऽपि दरिशौनकः सर्वेषां सपिता हि स्यात् सर्वेषामनुबालकः कनिष्ठेषु समापभोगजीवेषु यथैवम् तनयेषु च बहूनामल्पसाराणाम् समवायो हि दारुणः तृणैरावेष्टिता रज्जुस्तया नागोऽपि बध्यते अपहृत्य परस्वम् हि दानं प्रयच्छति स दादानरकं देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च कुल्लान्यकुलतां यान्ति ब्राह्मणादिक्रमेण च ब्रह्मघ्ने च सुरापे जा चोरे भग्नव्रते तथा निष्कृतिर्विहिता सद्भिकृतग्ने नास्ति निष्कृतिः नाश्रन्दिपितरो देवाः क्षुद्रस्य वृषलीपदेः भार्याजिदस्य नाश्रन्दीयस्य चोपपतिर्गृहे अकृ अकृ अकृमनार्यञ्ज दीर्धरोषमनार्जवम् च दुरो विद्धि चाण्डालाञ्जात्या जायेतपञ्चमः नोपेक्षितव्यो दुर्बुद्धिशत्रुलल्पोऽप्यवज्ञया वन्निरल्पोऽप्यः संहार्य कुरुते भस्मसा जगद नवे वयसि यः शान्तः स शान्त इति मे मदिः धातुषु क्षीयमाणेषु शमकस्य न जायते पन्थानयैव विप्रेन्द्र सर्वसाधारणाश्रियः मदीया युधित्वा वैनहि हर्षयुधो भवेद् चित्तायत्तं धातुवश्यं शरीरं चित्ते नष्टे धादवो यान् विनाशं तस्माच्चित्तं सर्वदा रक्षणीयं स्वस्थे चित्ते धादवः सम्भवन्ति युधि श्रीकारूडे महापुराणे आचारकाण्डे बृहदृनीदिसारे चतुर्दशोत्तरशततमोऽध्यायः ओम्